श्रीहरे नमः अथ चतुर्विंशोऽध्यायः राजोवाच भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः अवतारकथामाद्यां मायामत्स्यविडम्बनं यथर्थं मदधातृपं मात्स्यं लोकजुगुप्सितम् तमः प्रकृतिदुर्मर्शं कर्मग्रस्त इवेश्वरः एतन्नो भगवन् सर्वं यथावद्वक्तुमर्हसि उत्तमश्लोकचरितं सर्वलोकसुखावहम् सुत उवाच इत्युक्तो विष्णुरादेन भगवान् भातरायणिः उवाच चरितं विष्णोर्मत्स्यरूपेण यत्कृतं श्रीशुक उवाच गोभिप्रसूरसाधूनां सन्तसामपि सेश्वरः रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि उच्चावचेषु भूतेषु चरन्वायुरिवेश्वरः नोचावचत्वं भजते निर्गुणत्वात् धियो गुणैः आसीतधीतकल्पान्ते नैमित्तिकोलयः समुद्रोपप्लुतास्तत्र लोका भूरातयोरृप कालेनागतनेत्रस्य धातुशयिषोर्भली मुखतो निःश्रुतान् वेदान् हयग्रीवोऽन्तिके हर ज्ञात्वा तद्धानवेन्द्रस्य हयग्रीवस्य चेष्टितं। दतारसपरीरूपं भगवान् हरिरीश्वरः तत्र राजऋषिः कश्चित् नाम्ना सत्यव्रतो महान् नारायणपरो तप्तपःस सलिलासनः योऽसा वावस्मिन्महाकल्पे तनयत्सविवस्वतः श्राद्धदेव इति ख्यातो मनुत्पे हरिणार्पितः एकधा कुर्वतो जलतर्पणं तस्याञ्जल्युदेककाचेत् सपर्ये गाव्यपद्यत सत्यव्रतोऽञ्जलिगतां सखतो येन भारत उत्ससर्जनधीतो ये शबरीन्द्रबिडेश्वरः तमागसातिकरुणम् महाकारुणिकं नृपं यथोप्योऽज्ञादिगादिभ्यो दीना दीनवत्सलां। दीनवत्सला कथं विसृजसे राजिन् भीतामस्मिन् सरिजले तमात्मनोऽनुग्रहार्थं प्रीत्या मत्वपुर्धरम् अजानन् रक्षणार्थाय सुपर्याः समनो तस्या दीनतरं वाक्यम् आश्रुत्य समहीपतिः कलसाप्सु निधायैनां आश्रमं। आश्रमम् सा तु तत्रैकरात्रेण वर्धमाना कमण्डलो अलब्ध्वा आत्मावकाशं वा इतमाकमहीपतीं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे कल्पयौकसुविपुलं यत्रागं निवेशे सुखं स एनां तत आधाय यधाधौ धञ्चनोधे तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत न मयेतदलं राजन् सुखं वस्तुं बुधञ्चनं प्रदुदेहि पदं मह्यम् यत्त्वाहं शरणं गता तदा आदाय सरोवरे तथा वृत्त्यात्मना सोऽयं महामीनोन्बवर्धत नैतन्मे स्वस्तये राजन्नुदकं शलिलौकशः निधेदि रक्षायोगेन प्रदे मामविदासिनी इत्युक्तसोनयन्मस्त्यं तत्र तत्राविदासिनी जलाशये संमितं तं समुद्रे प्राक्षिपजं क्षिप्यमानस्तमोहेदम् इह अदन्त्यबला वीरमां नेहोस्त्रष्टुम् अर्हसिं एवं विमोहितस्तेन वदता वल्गुभारतीं तमाहको भवानस्मान् मत्स्यरूपेण मोहयन् नैव जलचरो दृष्टोस्मा श्रुतोऽपि च यो भवान् यो जनसतमन्काविव्यानसे शरः नूनं त्वं भगवान् साक्षात् हरिर्नारायणोऽव्ययः अनुग्रहाय भूतानां दत्से रूपं जलौकशां नमस्ते पुरुषश्रेष्ठ स्थित्युत्पक्ति अप्ययेश्वर भक्तानां न मुख्यो ह्यात्मगतिर्विभो सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ज्ञातुमिच्छां यथोरूपं यदर्थं भवता धृतं न तेरविन्दाक्षपदोपसर्पणं वृषा भवेत् सर्वसुहृत्प्रियात्मनः यतेतरेषां पृथकात्मनां सताम् अदीदृशो यत्त्वबुरद्भुतं हिनः श्रीशुक उवाच इति ब्रुवाणं नृपतिं जगत्पथिं सत्यव्रतं मत्स्य वपुर्युगक्षये विकर्तुकामप्रलयार्णवे ब्रवेत् चिकीर्षु रेकान्तजनप्रियः प्रियम् श्रीभगवानुवाच सप्तमेऽद्यतनात् ऊर्ध्वम् अहन्ये दधरिन्दम निमङ्क्षयति त्रैलोक्यं भूर्भुवादिकं त्रिलोक्यां लीयमानायां संवर्तां भसि उपस्थास्यति नौ काचित् विशाला त्वमयेरिता त्वं तावदोषती सर्वा बीजानि उच्चावनानि च सप्तर्षिभिः विचरिष्यस्य विक्लवः एकार्णवे निरालोके ऋषीणामेव वर्चसा दोधूयमानां तां नाभं समीरेण बलीयसा उपस्थितस्य मे शृङ्गे निभीमहाकिन अहं त्वां ऋषिभिः साकं विकर्षन नाभमुदन्वती विचरिष्यामि यावद्ब्राह्मी निशा प्रभो मदीयं महिमानं च परं ब्रह्मेति सप्तिधं वेतस्यनुगृहीतं मे सम्प्रसन्नैर्विवृतं हृदि इत्थम् आदिश्य राजानं हरि अन्तरधीयत सोन्भवैक्षततं कालं यं ऋषिकेश आस्थीर्यधर्मान् प्राङ्कुलान् राजर्षि प्राक् उतङ्मुखः निशसादहरे पाधौ चिन्तयन्मत्स्यरूपिणः ततः समुद्रमुद्वेल सर्वतः प्लावयन्महीं वर्धमानो महामेघैर्वर्षद्भि द्यायन् भगवदादेशं धतृशेनावमागता तामारुरोहविभ्रेन्द्रये आधायौषधिरुदः तमुचोर्मुनयः प्रीता राजन् ध्यायस्व केशवं सवै न शङ्कट तस्मात् अविता संविधास्यति भ्रातुरासीन्मकार्णवे एकशृङ्गधरो मत्स्यो हैमो नियुतयो जनः निभद्यनाभं तच्छृङ्गे यथोक्तो हरिणा पुर वरत्रेणाहिनातुष्टस्तुष्टावमधुसूदनं राजोवाच अनाद्य विद्योपहदात्मसंविधन् तन्मूलसंसारपरिश्रमातुराः यदृच्य एहोपश्रुतायमाप्नुयोर्विमुक्तिदो नः परमो गुरुर्भवान् जनोऽभूतोऽयं निजकर्मभन्तन सुखेच्छया कर्म, कर्म समीहते सुखम् यत्सेवया तां विदुनोति असन्मतिं ग्रन्थिं स विध्यात् हृतयं स नो गुरुः यत्सेवयाज्ञेरिव रुद्ररोतनं पुमान् विजह्यान् मलमात्मनस्तमः भजेत वर्णं निजमेष सोऽव्ययो भूयात्स परमो गुरोर्गुरुः न यत्र प्रादायुत भाकले समन्येच च देवागुरभोजनास्वयं कर्तुं समेताः प्रभवन्ति पुंस तमीश्वरम् त्वां शरणम् प्रबध्ये अचक्षुरन्दस्य यदाग्रणीकृत तथा जनस्या विदुषो बुधो गुरुः त्वमर्घतृक्सर्वदृशां समीक्षण प्रथो गुरोर्नस्वगतिं जनो जनस्यादि सते सति मतिं यया प्रभत्येत दुरत्ययं तमः त्वं त्ववयं ज्ञानमोगमञ्जसा प्रभत्येत येन जनो निजं पदं त्वं सर्वलोकस्य सुहृत्प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः तथापि लोको न भवन्तमन्धतीर्जानाति सन्तं हृदिबद्धकामः तं त्वामहं देववरं वरेण्यं प्रभत्य ईशं प्रतिबोधनाय चिन्ध्यर्थदीपैर्भगवन्वचोऽपि ग्रन्थेन् हृदयान् विभृणोस्व मोकः श्रीशुक उवाच इत्युक्तवन्तं नृपतिं भगवानादिपूरुषः मत्स्यरूपि महाम्भूत विहरंस्तत्त्वमब्रवीत् पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावती सत्यव्रतस्य राजर्षे रात्मगुह्यम् अशेषतः अस्रौषीतृषिभित्साकम् आत्मतत्त्वम् असंशयं नाव्यासीनो भगवता प्रोक्तं ब्रह्मसनातनं अतीतप्रलयापाय उत्थिताय स हत्वा सुरं हयग्रीवं वेदान् प्रत्याहरत् हरिः स तु सत्यव्रतो राज ज्ञानविज्ञानसंयुतः विष्णो प्रसादात् कल्पेऽस्मिन् आसीद्वैवस्वतो मनुः सत्यव्रतस्य राजर्षेर् मायामत्स्यस्य सार्गिणः तं वा तं श्रुत्वा मुच्येत अवतारो हरेर्योयं कीर्तये तन्वहं नरः सङ्कल्पास्तस्य सिद्ध्यन्ते स याति परमां गतिं प्रलयपयसि धातु श्रुतिगणमपनीतं प्रत्युपादत्तः त्वा दिधिजमदयत्यो ब्रह्मसत्यव्रतानां तमहमखिलहे त्वं जिह्मीनं इति श्रीमद्भगवते महापुराणे वैयासिक्याम् अष्टादशसाहस्र्यां पारमहंस्यां संहितायां अष्टमस्कन्धे मत्स्यावतार चरितानुवर्णनं नाम चतुर्विंशोऽध्यायः इति अष्टमस्कन्धस्समाप्तः श्रीकृष्णार्पणमस्तु सर्वत्र गोपिका जीवनस्मरणं गोविन्द सदगुरुनाथ महाराज की जय